मुद्गलपुराण खंडम सवन विघ्नराजचरत अयटी दत्तगीर्णनमीगणेशा नम कश्यप उवाच एकदा कदा मखमा से मकरस्थे दिवाक तीर्थन देव विप्राद्या प्रयागम् जग्मुरादराद सर्वे संहृष्टभावस्था माखस्नानपरायणाः ओङ्कारगणनाथं ते पुपूजुर्भक्तिसंयुताः तदशूलभृतं पूज्य तत्रस्थं माधवं प्रिये त्रिवेणीं भावसंयुक्ताः कथाम् चक्रुः पुरातनीम् भ्रमंस्तत्रा जगामैव दत्तो योगीन्द्रसप्तमः अवधूतस्य मार्गस्य प्रकाशक उदाहृतः गणेशं ब्रह्म ब्रह्म परं सर्वार्थदायकम् ओङ्कारगणनाथं सप्त प्रणम्य स्तोत्रमारभद तत्सृष्ट्वा परमाश्चर्यमाययुस्तम् शिवादयः योगिनः कश्यपाद्याश्चान्ये देवादय आदराद तम् प्रणम्यस्तिदाः सर्वे योगीन्द्रम् ब्रह्म तत्परम् भजने सकृतम् दृष्ट्वा पप्रच्छुरादराद शिवादय ऊजुः भगवन् सर्वतत्त्वज्ञब्रह्मभूतपरायण साक्षाद् ब्रह्मशरीरस्त्वं समागतो यदृच्छया अवधूतस्य मार्गस्य प्रकाशार्थम् विशेषतः देहधारी भवान्नाथ पावनाय शरीरिणां तव दर्शनमात्रेण कृतकृत्या वयं प्रभो जाधा कुलयुधामिन् बोधयस्वमुनीन् सुरान् एवं पृष्ठो महामुनिः जगादतान्महाभागान् हर्षेण महदावृतः दत्तात्रेय उवाच ब्रह्मविष्णुशिवाद्याश्चाङ्गिराद्या मुनयोमलाः शेषाद्या नागराजाश्च शृणुध्वं मे वचोहितम् ब्रह्मेदं सर्वमाभादितं भजध्वं हितायवः समर्था ब्रह्मभूताश्च भविष्यधनसंशयः तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः हर्षेण योगिवन्द्यं तं कृत्वा करपुटं प्रिये शिवाद्या ऊचुः ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथं नामरूपधरं देवमोङ्काराकृतिधारकम् अस्माकं कुलदेवोयं त्रिगुणात्मशरीरिणां मूलभूतो न सन्देहो योगिनां कथमञ्चसा तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः दत्तो जगादहर्षेण ज्ञानदानार्थमादराद दत्त उवाच गणेश्यो ब्रह्मणां नादो वेदेषु परिकीर्तितः ब्रह्म नानाविधं तद्वत् कथितम् माययायुतम् अन्नं ब्रह्मेदि देवेश मुनयशृणुदप्रियाः तत्रान्नमयरूपा तु मायामोहकरीबभौ प्राणो ब्रह्मेदि तत्रैव प्राणाकारविमोहिनी माया मनोमयि तद्वन्मनो ब्रह्मणि संस्थिता विज्ञानं ब्रह्म तत्रेयं मायाविज्ञानरूपिणी आनन्दं ब्रह्म यत् प्रोक्तं युदमानन्दमायया चैतन्यं ब्रह्म यत् प्रोक्तम् माया चेतनरूपिणी बिन्दुब्रह्मेधि तत्रैव माया बिन्दुमयी बभौ सोऽहं ब्रह्मेधि यत्रेयं मायासोऽहं प्रकाशिनी बोधो ब्रह्मेधि बोधाख्या माया तत्र विमोहिनी विदेहम् ब्रह्म यत्प्रोक्तं माया वै देहरूपिणी तया तत्र महादेवाभ्रमन्दिब्रह्ममानिनः कर्म ब्रह्मेदि कर्माख्या माया तत्र विमोहिनी ज्ञानं ब्रह्मेदि तद्वत्तु ज्ञानमायायुदम्बभौ समं ब्रह्मेदि तत्रैव माया समस्वरूपिणी सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् असद्ब्रह्मेदि यत्प्रोक्तम् तत्रा सन् माययायुधं सद्ब्रह्मेदि सदाकारमायायुक्तम् प्रकीर्तिदम् सद सन्मयभावाख्यम् ब्रह्म प्रोक्तं मुनीश्वराः उभयात्मविकारेण ज्ञातव्यं संयुधं सदा अव्यक्तं ब्रह्म यत्प्रोक्तं युदमव्यक्तमायया स्वसंवेद्यं परं ब्रह्म युधं स्वानन्दमायया आत्मा द्वयैकसर्वाख्याद्या शब्दाः परिकीर्तिताः महावाक्यादिभिस्तेदु तत्तन्माया प्रकाशकाः शिवविष्णुमुखा शब्दा ब्रह्मवाच्याः प्रकीर्तिताः तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः पृथ्वी जलादितत्त्वानि ब्रह्मणां वाचकानि तु तत्तद्विकारयुक्तानि जानीद देवसत्तमाः एवं नानाविधान्येव ब्रह्माणि कथितानि च वेदादिषु समस्तानि मायामोह युतानि तु तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः ब्रह्मणां पादुर्भावाच्च पालयेतृत्वकारणात् स येवायं गणाध्यक्षो वेदेषु भवद ब्रह्म भूयमयः साक्षात् भजामि द्विजोत्तमाः उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्मचक्षते साङ्ख्यं शिरोगणेशस्य गजानन इति स्मृतः भूमिः ब्रह्मणि तन्मयः देहस्तस्य च योगाख्यो नानाभूमिप्रधारणाद तयोर्योगे गणेशानो देहधारी बभूवः साङ्ख्ये योगमयः साक्षात्पूर्णशान्तिप्रदायकः सं योगेऽयं गकाराख्यो ह्ययोगेणमयस्मृतः तयोरीशो गणेशानो नामायं वेदवादतः पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गं बभूवः पञ्चभ्रान्तिकरीसिद्धिर्वामाङ्गं तस्य सर्वदा स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति चित्ते चिन्तामणिः साक्षात् प्रकाशकारकस्तयोः समोहम् चित्तमुत्सृज्य योगीन्द्रो जायते नरः तं भजामि विशेषेण चित्तचालनकारकम् कृतानि सिद्धिबुद्धिभ्याम् ब्रह्मणि सकलानि वै तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् अतोऽयं देहभृत् भूत्वा भक्तमार्गप्रदायकः सुलभत्वाय देवेश परो जानीद संस्थितः तस्य तद्वचनं श्रुत्वा वसिष्ठस्तस्तमुवाचः संशयस्य विनाशार्थं सर्वैः सम्प्रेरितो वचः वसिष्ठ उवाच ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसम्मतं ब्रह्मणस्पदिरेकोऽयं पदित्र कथं मुने पदिरूपा महामाया गणेशे संस्थिता भवद यथान्नादिविकारस्थम् ब्रह्म तद्वदयं मदः वसिष्ठस्य वचत् श्रुत्वा दत्तो हर्षसमन्विदः जगादतं विशेषज्ञं योगेन्द्रः परमार्थविद अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु गणेशेन महायोगिंस्तेनायं पदिरुच्यते ब्रह्मभिः कथितश्चायं पदि न नसंशयः स्वयं ब्रह्मैव तन्नाशे तथापि पादृभावतः अन्नप्राणादिकान्येव विकारान् सन्त्यजन्ति च ब्रह्माणि ब्रह्मभूतानि भविष्यन्त्यस्य सेवनाद ब्रह्माणि ब्रह्मणि यदि चेद्गतानि महामुने पधिकेषां गणेशानः कथ्यते कैर्वदासु अदो मायाविकारेण हीनोऽयं गणनायकः ब्रह्मैवोपास्यभावात्तु पदित्वं कथनात्मकम् इति तस्य वच श्रुत्वा पुनस्तं नारदो ब्रवीद योगीन्द्रं भावबोधार्थमवधूतमकल्मषं नारद उवाच गणेशे त्वं महायोगींस्तदा कारो न संशयः दत्तो दत्तोऽयमेकश्च गणेश कुत्र वर्तते न भिन्नश्चेन्महाभागभजसे कम् इमम्मे संशयं चिन्ति सर्वज्ञोऽसि महामदे दत्त उवाच देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा शुभाशुभं विशेषेण नामरूपविकारतः ब्रह्म सर्वत्र विप्रेष्य तन्मयं नात्र संशयः भादि विचारय विचक्षण ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता नान्यत्र शम्भुविष्णुवादिभावेषु पश्यमानद अधः प्रत्यक्षचित्तस्थं ब्रह्मविघ्नेशवाचकं दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् अधो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः तं भजामि विशेषेण देहचेष्टापरायणः देहक्रियात्मकप्रोक्तश्चित्तं चिन्तनकारकं स्वभावेन यथान्यद्वै करोति दी। चिन्तनादिकं तथा गणेश्वरं मेत्र देहश्चित्तं भजे ध्रुवं तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ब्रह्म ब्रह्मैव सञ्जातं तदाकारं मदीयकं देहश्चित्तं भजेत्तं वै स्वप्रकाश्यकरं सदा अनेन योगमार्गेण भजामि गणनायकं न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय यथा करोमि नित्यं तु भक्षणादिकमादराद तथा गणेश्वरं तात भजामि भक्तिसंयुधः नाहम्भोक्ता स्वदेहस्थस्तथा माम् विद्धि देहगम् न भक्तम् गणराजस्य देहधर्मः प्रवर्तते दे। ब्रह्मणि ब्रह्मभूतो यो न तथापि देहचित्तेऽन्यत् करिष्यतः स्वभावतः न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुदः अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः दृष्ट्वा तं न भजेत्सोऽपि ब्रह्मघ्नपरिकीर्तिदः गणेशमूर्तिकं दृष्ट्वा योगेशं शान्तिदायकं कस्य योगिजनस्यात्र प्रीतिसद्यो न जायते इति तस्य वच श्रुत्वा हर्षयुक्ता शिवादयः नारदाद्याः प्रणेमुत्स्थं विस्मितास्तस्य चेष्टितैः जगुष्ठहर्षसंयुक्ता वयं संशयवर्जिताः कृतास्त्वया महाभाग एकमार्गपरायणाः नानामदविभेदेन भ्रान्तियुक्ता भ्रमन्ति तु त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने भ्रान्तिनाशार्धमत्यन्तम् भवान् विघ्नेश्वरेण च निर्मितो योगमार्गज्ञ सर्वशान्तिप्रदायकः एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः शिवादयो वसिष्ठाध्यास्वालयं प्रययो प्रिये सर्व सारां समाख्यादाम् गीतां दत्तमुखाच्युतां पठनश्रवणानृभ्यः शान्दिदां सर्वसिद्धिदां कश्यपश्यप च श्रुत्वा हर्षिता तं प्रणम्यसा जगादभावगम्भीरा दिदिर्विघ्नेश्वरे रता ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिदे नामत्रयो नामत्रयोदशोऽध्यायः ॐ